मार्कण्डेयपुराणम् अध्यायं हण्ड्रेड् एण्ड् ट्वेन्टि सेवेन् मरुत्तचरितवर्णनं मार्कण्डेय उवाच इति तापसवाक्यं सश्रुत्वा लज्जा परो नृपः दिग्मां चारान्धमित्युक्त्वा निःश्वस्य जगृहे धनुः ततः स त्वरितं गत्वा तमौ वस्याश्रमं प्रदि ववन्दे शिरसा वीरां मादरं पिदुरात्मनः तापसांश्च दृष्ट्वाच न्यायं तैश्चाशीर्भिरभिष्टुदः दृष्ट्वा च तापसान्सप्तनागैर्दष्टान्मृदान्भुवि निनिन्दात्मानमसहृत्पुरस्तेषां महीपतिः उवाच चैददद्याहं मद्वीर्यमवमन्यताम् यत्करोमि भुजंगानां दुष्टानां ब्राह्मणद्विषां तत्पश्यतु जगत् सर्वं सदेवासुरमानुषं मार्कण्डेय उवाच इत्युक्त्वा गृहे कोपादस्त्रं संवर्तकं नृपः नाशया पादालोर्वी विचारिणां ततो जज्ज्वालसहसा नागलोकसमन्तदः महास्त्रतेजसा विप्रदह्यमानो निवारितः हा हा तादे हा मादर्हा वत्सेदि सम्भ्रमे तस्मिन्नस् तत्र कृते वाजः पन्नगानामथाभवन् के जिज्वलद्भिः पुच्छाघ्रैः फणैरन्ये भुजङ्गमाः गृहीतपुत्रधाराश्च पुत्रदाराश्चत्यक्ता भरणवाससः ययुः शरणं भामिनीं तदा मरुतमादरं पूर्वं यया तदा भयम् तामु सामुपेत्यो रगा सर्वे सप्रणामं भयातुराः सगद्गदमिदं फ्रोजु स्मर्यतां नः पुरोदितं प्रणम्याभ्यर्थितं पूर्वं यदस्माभीरसातले तस्य तस्त्राहि वीरप्रजायिनी पुत्रो निवार्यतां राज्ञिप्राणैः संयोज्यमस्तु नः दह्यतेः सकलो लोको नागानामस्त्रवह्निना एवं सन्दह्यमानानामस्माकं स्तनयेन ते त्वा मृदे शरणं नान्यत्कृपां कुरु यशस्विनि मार्कण्डेय उवाच इति श्रुत्वा वचस्तेषां संस्मृत्यादौजभाषितं भर्तारमाह साध्वी ससम्भ्रममिदं वचः पूर्वमेव तवाख्यादं पादाले यत् भुजङ्गमैः प्रोक्तमभ्यर्धना पूर्वं ममासीत्तनयं प्रदि त दह्यन्ते तस्य तेजसा मा मेदे शरणं पूर्वं दत्तमेभ्यो मया भयं ये मां शरणमापन्नास्ते त्वां शरणमागताः अपृथग्धर्मचरणा यादाहं शरणं तव तन्निवारय पुत्रं त्वं मरुत्वं वचनात् तव मया चाभ्यर्थितोऽवश्यं शममभ्युपयास्यति राजोवाच महापराधे नियतं मरुद्धक्रोधमागतः दुर्निर्वर्त्यमहं मन्ये तस्य क्रोधं सुतस्यते नागुजुः शरणागतास्तव वयं प्रसादक्रियतां नृप क्षत्रस्यार्थपरित्राणनिमित्तं शस्त्रधारणम् मार्कण्डेय उवाच नागानां तद्वच श्रुत्वा भूतानां शरणैषिणां तया चाभ्यर्थितपत्न्या प्राह वीक्षिन्महायशाः गत्वा ब्रवीमित्तं भद्रे तनयं त्वरया परित्राणायनागानां न त्याज्याश्चरणागदाः नोपसंहरदे सोऽस्त्रं यदि मद्वचनान्नृपः तदास्त्रैर्वारयिष्यामि तस्यास्त्रं तनयस्य ते मार्कण्डेय उवाच तदो गृहीत्वा स धनुरविक्षित्क्षत्रियोत्तमः धार्यया सहितप्राया त्वरावान् भार्गवाश्रमम् इति श्रीमार्कण्डेयपुराणे मरुत्तचरितवर्णनं नाम सप्तविंशत्यधिकशततमोऽध्यायः ओ